गणेशपुराण उपासनाखंडम अध्याय क उवाच रेणुकागोच भृशविह्वला क्वाल मम पुत्रस्ते संहारेस्पस्थि मृदे भर्तरी किं कुणसा क्व महाक्रोधी रामो मे प्रियबालकः तस्मिन् दृष्टे मम प्राणा गमिष्यन्ति सुरालयं स्मृतमात्रस्तया रामो ययौ मा दुस्तदान्तिकं बाणजालचितां तां च पितरं मृदमैक्षद कार्तवीर्येण दुष्टेन दृढबाणहदं हृदि पपादमूर्च्छया भूमौ वादभग्न इव द्रुमः चैव रुरोद भृशदुःखितः राम उवाच अद्यान्धकार सर्वत्र अद्य शून्यादिशो दश मेरुर्विना यथा पृथ्वी शक्रहीनामरावती नाश्रमशोभदे तद्वत्पित्राहीनो यमध्य मे त्रिलोकी गङ्गया हीना तद्वदाश्रममण्डली न शोभदे रेणुकया हीनाप्याश्रममण्डली गदम् भयं तु देवानां मुनयोद्य निरीश्वराः यदा सी तपसा किमयं वा गृहीष्यति एवं बहुविधाकारं चक्र आक्रन्दनं तु सः अचेष्टदभृशं रामो मत्स्यो नीरं विना सद रुदन्येव समाययौ निष्कासयामास शरानङ्गे कृत्वा शिरोधराम् चक्रन्त च पुनः रामो त्रैलोक्यं भस्मसत्कर्तुं या क्षमा सा कथं पदिदा भूमौ दुष्टबा न नित्यं क्षणं क्रीडागदं पुरा त्यक्त्वा मां कथमद्यत्वं कुत्र वा गन्तुमुद्यता ददासि मे पयो भूरि वस्त्राण्यन्नानि शोभने भलमूनानि चारूणि यासी त्यक्त कथम नुसा मितृभ्यान दि जीवित मध्य मे ब्रह्मोवाच युत्रवच्रुवा रेणुका भृशदुखिता पुत्रस्य पुत्र जगादृश विह्वला अकं ते निकटे स्थास्ये न शोकं कर्तुमर्हसि शृणु पुरावृतां राजा सौ कृतवीर्यजः मध्याह्ने सह सैन्येन प्राप्तः आश्रममण्डलं पित्रा ते मानितः सम्यग् भोजितो बलसंयुधः कामधेनो प्रसादेन भुक्त्वा याचत धेनुकां तूष्णीं भूदे मुनौ कोपात् कामधेनुं मुमोचसः स्पृष्टमात्रा च स धेनुससर्जबलमुत्कटं चतुरङ्गतदो युद्धमभवद्राजसैनिकैः भग्नास्तेऽप्यपलन् सर्वे राजा युद्धमधाकरोत् स च पञ्चशतं बाणान् वारं वारमधासृजत सोऽपि भग्नो गृहं व्याधः कामधेनुर्दिवं गदा पुनरागत्य दुष्टोऽस्सौ बाणेनैकेन वक्षसि जखानपितरं कोपादेकविंशति सायकैः अपराधं विनामां च ताडयित्वा गधखलः तस्मात्त्वयाद्यदुष्टस्य नाशशीघ्रं विधीयताम् एकविंशतिवारं कुरु निहिक्षत्रियां धराम् ये कविंशदि देहेतेन मे देहे तेन यतोऽर्पिताः अन्यदेकं वदे पुत्र तत्कुरुष्व वचो मम संस्कारं कुरु तत्र यत्र कोऽपि न दाहिताः दत्तात्रेयं मुनिवरमाकार्य सर्ववेदिनम् कुरु कर्मान्तरं नौ त्वं त्रयोदशदिनावधि तदैव गदिमाप्स्यावो नान्यो वक्तास्ति तादृशः इत्युक्त्वा रेणुकादेहं त्यक्त्वा धामाप दुर्गमं रामस्तत्सर्वमकरोत्तयादिष्टं महामनाः श्री गणेशपुराणे उपासनाखंडे राख्याने शीतितमोध्या